श्रीहरये नमः अथ दशमोऽध्यायः श्रीशुक उवाच इन्द्रमेवं समादिश्या भगवान् विश्वभावनः पश्यतामनिमेषाणां तत्रैवान्तर्दते हरिः तदा वियाचितो देवैरुषिरातर्वणो महान् मोदमान उवाचेदम् प्रकसन्निव भारत अभिवृन्दारकायूयं न जानीतशरीरिणा संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापकः जिजीविषूणां जीवानाम् आत्मा प्रेष्ट इहेप्सितः कवुत्सहेततं धातुम् क्षमाणाय विष्णवे देवावूचू किं नु तद् दुष्यजं ब्रह्मन् पुंसां भवद्विदानां महतां पुण्यश्लोकेट्यकर्मणा ननु स्वार्थपरो लोको न वेद परसङ्कटं यदि नेतिनाकयदीश्वरः ऋषिरुवाच धर्मं वश्रोतु कामेन यूयं मे प्रत्युदाहृताः एष वप्रियमात्मानं त्यजन्तं सन्त्यजाम्यहं यो ध्रुवेनात्मना नाथा न शोच्यस्थावरैरपि एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यतिम् अहो मार्त्यस्वज्ञातिविग्रहैः श्रीशुक उवाच एवं कृतव्यवसितो धत्यज्ञाधर्वनस्तनुं परे भगवति ब्रह्मणि आत्मानं सन्नयं जहौ यदाक्षासु मनोबुद्धे तत्त्वदृग्ध्वस्तबन्धनः आस्तितः परमं योगम् न देहम्बुबुते गतम् अथेन्द्रो वज्रमुद्यम्यन् निर्मितं विश्वकर्मणा मुने शुक्तिभिरुत्सिक्तो भगवतेजसान्वितः मृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत स्तूयमुनिगणस्त्रेलोक्यं हषयनिव वृत्रवे तो मसूरापे पर्यतमोजस राजजन क्रुद्धो रुद्र इवाह तत सु मसुरेण परुणता मुखे अभवत्प्रथमे युगे रुद्रैर्वशुभियातिथ्यैर् अश्विभ्यां पितृवह्निभिः मरुद्भिरुभिः साध्यैर्विश्वदेवैर्मरुत्पथिं दृष्ट्वा वज्रधरं शक्रं रोषमानं स्वया श्रिया नाम रुष्यन्त सुराराजन् वृथे वृत्रपुरःशराः नमुच्छि शम्भरो नर्वा विमूर्धारिषभोम्भरः हयग्रीवशङ्कुचिरा विप्रचित्तिरयोमुखः पुलोमावृषपर्वा च प्रहेतिर्हेतिरुत्कलः दैतेयाधानवा यक्षा रक्षांसि च सहस्रसः सुमालिमालिप्रमुखा कार्तस्वरपरिच्छदाः प्रतिषित्येन्द्रसेनाग्रं मृत्योरपि दुरासधम् अभ्यर्तयन्न सम्भ्रान्ता सिह्मदादेन दुर्मधाः गतापि सर्वतो वा किरन् शस्त्रै अस्त्रैश्च विबुधर्शभान् न दृश्यन्त सिञ्चन्ता सरजालै समन्ततः पुङ्कानुपुङ्कपतिते ज्योतिं क्षीवनाभोगणैः न ते शस्त्रास्त्रभर्षौघा ह्यासेधुसुरसैनिकान् छिन्ना सिद्धपते लघुहस्तैः सहस्र धा अतक्षीणास्त्रशस्त्रौघा अभ्यवर्षन्सुरभलं अभ्यवर्षन् सुरफलम् चिचितुस्थान्यश्च पूर्ववद् धानक्षतान् स्वस्तिमतो निशाम्य अभिक्षदांस्तद्र सुरीन्द्रसैनिकान् सर्वे प्रयासा भवन् कृता कृता देवगणेषु दैत्यैः कृष्णानुकूलेषु यतामहत्सु क्षुत्रै प्रयोक्ता रुचती रुक्षवाचः ते स्वप्रयासं विततं निरीक्षन् हरावभक्ता हदयुद्धदर्पाः पलायनायाजिमुखे विसृज्य पथिं मनस्ते दधुरात्तदसाराः भृत्रोऽसुरांस्तान् अनुघान्मनस् विप्रधावतः प्रेक्षय भभाषतद् पलायितं प्रेक्ष्यबलं च भग्नं भयेन तीव्रेण कलोपपन्नां रुचिरामनस्विनाम् उवाच वाचं पुरुषप्रवीरः हे विप्रचित्ते न मुचे पुलोमन्मया नर्वञ्चं भरमे जातस्य मृत्युर्ध्रुव एष सर्वथा प्रतिक्रिया लोको यशश्चात ततो कोनाम ह्यमुं को नाम मृत्युं न वृणीत युक्तम् द्वौ सम्मताविह मृत्युधुराभूय कलेवरं योगरथो विजह्याद यदग्रणेर्वीरसये निवृत्तः इति श्रीमद्भागवते महापुराणे षष्ठस्तन्ते इन्द्रवृद्धासुरयुद्धवर्णनं नाम दसमोऽध्यायः सर्वत्र गोपिका गोविन्दा गोविन्दा गोविन्द सद्गुरुनाथमहाराज की जय